ब्रह्मा आत्मन्वतसृजत तदकामयत समात्मना पद्येजयति आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमकुम्भूतः प्रत्यशृणोत् स दश हूतो भवत् दश होतो वा एवम् दशहूतकुम् सन्तम् दश होतेत्याचक्षते परोक्षेण परोक्षप्रियायि आत्पन्नात्पन्नित्यामन्त्रयत तस्मै सप्तमगुम्भूतः प्रत्यशृणोत् स सप्तहूतोऽभवत् सप्तहूतो हवैनामेषः तम् वा एतगुम् सप्तहूतगुम् सन्तम् सप्तहोतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्पन्नित्यामन्त्रयत तस्मै थ्या षष्ठगुम्भूतः प्रत्यशृणोत् स षड्ढूतोभवत् षड्ढूतो हवैनामैषः तम् वा एतम् षड्ढोतगुम्सन्तम् षड्ढोतेत्याचक्षते परोक्षेण परोक्षप्रियाय बहिदेवाः आत्मन्नात्पन्नित्यामन्त्रयता तस्मै पञ्चमगुम्भूतः तस प्रत्यशृणोत् स पञ्चभूतो भवत् पञ्चभूतो हवैनामैशः तम् वा एतम् पञ्च होतेत्याजक्षते परोक्षेण परोक्षप्रियाय बहिदेवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थकम् हूतः प्रत्यशुणोत् स चतुर्होतोऽभवत् चतुर्होतो हवैनामैषः तम् वा एतम् चतुर्होतकम् सन्तम् चतुर्होतेत्याजक्षते परोक्षेण परोक्षप्रियाय बहिदेवाः तमब्रवीत् त्वम् वै मे नेदिष्ठगम् हूतः प्रत्यश्रौषीः त्वेनानाख्यातार इति तस्मान्नु वैरागिश्चतुर्होतार इत्याचक्षते तस्माक्षिश्रूषस्पुत्रा नाघुम् हृद्यतमः नेदिष्ठो हृद्यतमः नेदिष्ठो ब्रह्मणो भवति य एवम् आत्मने नमः येनेदम् भूतम् भुवनम् भविष्यत्परिगृहीतममृते न सर्वम् येन यज्ञस्त्रायते सप्तहो तातन् वै मनः शिवसङ्कल्पमस्तु येन कर्माणि प्रचलन्ति धि राजतो वाचा मनसाचारुजन्ति यत्संवितमनुसंयन्ति प्राणिनस्तन्वै मनः शिवसङ्कल्पमस्तु येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदधे सुधीराः यत् पूर्वक्षमन्तः प्रजानान्तन्मे मनः शिवसङ्कल्पमस्तु यत्प्रज्ञानमुत चेताधृतिश्च यद् ज्योतिरन्तरमुतम् प्रजासु यस्मान्नरुते yes, किञ्चनकर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु सुशारथिश्वानि वयन्मनुष्यान्ये नीयते भेषुभिर्वाजिन इव त्र तिष्ठन् यदजिरञ ऋन्तन्मे मनः शिवसङ्कल्पमस्तु यस्मिन्द्रतः सामयजो यस्मिन्द्रतिष्ठार्थनाभाविपाराः यस्म्यश्चित्तकुम् सर्वमोतम् प्रजानान्तन्मे मनः शिवसङ्कल्पमस्तु यदत्र षष्ठम् त्रिशतकुम् सुवीरम् यज्ञस्य गुह्यन्वनाभमायम् दश पञ्च त्रिपुंशतम् जत्तरम् च तन्मे मनः शिव सङ्कल्पमस्तु यज्जाग्रतो दूरमुदैति दैवम् तदु सुप्तस्य तथैवैति दूरम् गमम् ज्योतिषाम् ज्योतिरेखम् तन्मे मनः शिवसङ्कल्पमस्तु जगतो बभूवये देवापि जातवेदाः देवाग्निस्तमसो ज्योतिवेकम् तन्मे मनः शिवसङ्कल्पमस्तु ये नद्योः पृथिवीतान्तरिक्षम् च ये पर्वताः प्रतिज्योतिषश्च येन जगतव्याप्तम् प्रजानान्तन् मे मनः ये मनोहृदयम् जय च देवाय दिव्या आपो ये सूर्यरश्मिः ते श्रोत्रे चक्षुषी सञ्चरन्तम् तन् मे मनः शिवसङ्कल्पमस्तु अभिचिन्त्यम् चाप्रमेयम् च व्यक्ताव्यक्तपरम् व्यक्ता च सूक्ष्मात् सूक्ष्मतरम् जेयम् तन् मे मनः शिवसङ्कल्पमस्तु एका च दशतम् च सहस्रम् चायुतम् च नियुतम् च प्रयुतम् चार्बुदम् च न्यर्बुदम् च समुद्रश्च मध्यम् चान्तश्च परार्धश्शतन्मे मनः शिवसङ्कल्पमस्तु ये पञ्च पञ्चादशशतकुम्सहस्रमयुतन्यर्बुदम् च ते अग्निदित्येष्टकास्तकुम् शरीरम् तन्मे वेदाहमेतम् पुरुषम् महान्तमादित्यवर्णन्तमसः परस्तार यस्य योनिम् परिपश्यन्ति धेरास्तन् वे मनः शिव सङ्कल्पमस्तु यस्येतम् धीराः पुनन्ति कवयो ब्रह्माणमेतन्तावृणत इन्दुम् स्थापरञ्जङ्गमन् यौराकाशम् तन् वे मनः शिव सङ्कल्पमस्तु परात्परतरम् चैव यत्परात्रैव यत्तरम् यत्परात्परतो ज्ञेयन्तन्वे मनः शिवसङ्कल्पमस्तु परात्परतरो ब्रह्मा तत्परात्परतो हरिः तत्परात्परतोऽधिशस्तन्वै मनः शिवसङ्कल्पमस्तु या वेदादिशु गायत्री सर्वव्यापी महेश्वरी यज्ञजुः सामाथर्वैश्च तन्मे मनः शिव सङ्कल्पमस्तु यो वै देवम् महादेवम् प्रणवम् सर्ववेदैश्च तन्मे मनः शिव सङ्कल्पमस्तु प्रणतः प्रणवोङ्कारम् प्रणवम् पुरुषोत्तमम् ओङ्कारम् प्रणवात्मानन्तन्मे मनः शिव योऽसौ सर्वेषु वेदेषु पठ्यते अकायो निर्गुणो ह्यात्मातम्नः शिवसङ्कल्पमस्तु गोभिर्जुष्टन्धरेणश्चायुषा च बलेन च प्रदया पशुभिः पुष्कराक्षन्तम् मे मनः शिवसङ्कल्पमस्तु रम्ये शङ्करस्य शिवालये देवतास्तत्र मोदन्ते तन्मे मनः शिवसङ्कल्पमस्तु त्र्यम्बकैयजामहे सुगन्धिम् पुष्टिवर्धनम् उरुवारुकमिव बन्धनान् मृत्योर्मोक्षे यमामृतात् तन्मे मनः शिवसङ्कल्पमस्तु विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्त्वात् म् बाहुभ्यान्नमति सम्पद त्रयेऽद्या वा पृथिवी जनयन् देव एकस्तन्मे मनः शिव सङ्कल्पमस्तु चतुरो वेदानधीजीत सर्वशास्त्रमयम् विदुः इतिहासपुराणानान्तन्मे मनः शिव सङ्कल्पमस्तु मानो महान्तमुतमानो अर्भकम् मान भुक्षन्तमुतमान भुक्षितम् मानोऽवधेः पितरम् मोतरमातरम् प्रियाणस्तनुवो रुद्रवैरिजस्तन् वै मनः शिवसङ्कल्पमस्तु मानस्थोकेतन जयमान आयुषि मानो दोषु मते तन् वै मनः शिवसङ्कल्पमस्तु ऋतगुम् सत्यम् परम् ऊर्ध्वरे तम् विरूपाक्षम् विश्वरूपाय वैनमो नमस्तम् देवनः शिवसङ्कल्पमस्तु कर्दरुद्राजप्रचेतसे मेढुष्टमायतव्यसे वोचयशन्तमगुम् हृदे सर्वोऽशेष रुद्रस्तस्मै नमो अस्तु तन् देवनः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषे मतः सुरुचोपेन आवह स बुद्ध्या उपमा अस्य विष्ठाः सतश्च यो निमसतश्च विभस्तन्मे मनः शिवसङ्कल्पमस्तु निमिषतो महेत्वै खरिद्राजा जगतो बभूव य एष अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विध मतन् मे मनः शिव सङ्कल्पमस्तु य आत्मदापलदायस्य विश्व उपासते देवाय हविषा विध मतन् यो रुद्रो अग्नौ यो अप्सुय ओषधीषु यो रुद्रो विश्वाभुवना विवेशरस्मै रुद्राजनमो अस्तु तन्वै मनः शिव सङ्कल्पमस्तु गन्धद्वारान् दुराधर्षान्यत्यपुष्टाम् करेषिणी ईश्वरेकुम् सर्वभूतानान्ता विहो बह् श्रयन्तन्मे मनः शिव ब्राह्मणाः ते परम् तन्मे मनः हृदयाय नमः